देवयानुवाच राजा यं दुर्गमे वाणिमग्रहीत् नमस्ते देहि मामस्मै लोके नान्यं पतिं वृणे शुक्र उवाच ऋतो सुतया त्वम् गृहाणे मामया दत्तां महिषीं ययातिरुवाच अधर्मो न स्पृशे देश महान् मामिह भार्गव वर्णसङ्करदो ब्रह्मन् इति त्वां प्रवृणोम्यहम् शुक्र उवाच अधर्मा अस्मिन् विवाहे मा म्लासीरहं पापं नुदामि वः स्वभार्याम् धर्मेण देवयानीम् सुमध्यमाम् अनया सह सम्प्रीतिम् अतुलाम् समवाप्नुहि इमम् चापि कुमारी ते शर्मिष्ठावर्षपर्वणि सम्पूज्या सततम् राजन्मा चैनां शयने वैशम्पायन उवाच एवमुक्तो ययातिस्तु शुक्रम् कृत्वा प्रदक्षिणम् शास्त्रोक्तविधिना राजा विवाहमकरोत् शुभम् लब्ध्वा शुक्रान्महद्वित्तम् देवयानीम् तदोत्तमाम् द्विसहस्रेण कन्यानाम् तथा शर्मिष्ठया सह सम्पूजितश्च शुक्रेण दैत्यैश्च नृपसत्तमः इति महाभार आदिपर्व संभवपर्वण ययातुपख्याशीतमोध्याय